वैशम्पायन उवाच मुहूर्तमिव तम् द्रोणश्चिन्तयित्वा विनिश्चयम् सव्यसाचिनमादाय नैषादिम् प्रति जग्मिवान् ददर्शमलदिग्धाङ्गम् जटिलम् चीरवाससम् एकलव्यम्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 एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा तथैव हृष्टवदनस्तथैवादीनमानसः छिद्वा विचार्यतम् प्रादाद्रोणायाङ्गुष्ठमात्मनः स सत्यसन्धम् नैशादिम् दृष्ट्वा प्रीतो व्रवीदिदम् एवम् कर्तव्यमिति वा एकलव्यमभाषत ततः शरम् तु नैषादिरङ्गुलीभिर्यकर्षत न च स शीघ्रोऽभूत् यथा पूर्वम् न ततोऽर्जुनः प्रीतमाना बभूव विगत ज्वरः द्रोणश्च सत्यवागासीन् द्रोणस्य तु तदा शिष्यौ गदा योग्यौ बभूवतु दुर्योधनश्च भीमश्च सदा संरब्धमानसौ अश्वत्थामा रहस्येषु सर्वेष्भ्यधिको भवत् तथाति पुरुषानन्यान् सारुकौ यमजावुभौ युधिष्ठिरो रथ श्रेष्ठः सर्वत्रथ धनञ्जय प्रथितः सागरान् तायाम् बुद्धियोग बलोत्साहैः सर्वास्त्रेषु च निष्ठितः अस्त्रे गुर्वनुरागे च विशिष्टो भवदर्जुनः तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् एकः सर्व कुमाराणाम् बभू वातिरथोऽर्जुनः प्राणाधिकम् भीमसेनम् कृत विद्यम् धनञ्जयम् धार्तराष्ट्रा समानीय सर्व विद्यास्त्र शिक्षितान् द्रोणः कृत्रिमम् भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् अविज्ञातम् कुमाराणाम् लक्ष्यभूतमुपादिशत् द्रोणौवाच शीघ्रम् भवन्तः सर्वेऽपि धनूष्यादाय सर्वशः भासमेतम् समुद्रिश्य तिष्ठध्वम् सन्धि तेशव मद्वाक्य समकालम् तथा कुरुत पुत्रकाः वैशम्पायनौ उवाच सन्धत्स्वबाणम् दुर्धर्षम् मद्वाक्यान्ते विमुञ्चतम् ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः तस्थौ भासं समुद्रश्य गुरुवाक्य प्रचोदितः ततो वितत धन्वानम् द्रोणस्तम् कुरु वचनं समुहूर्तादुवाचेदम् भरतर्षभ पश्यैनम् तम् द्रुमाग्रस्थम् भासम् नरवरात्मज पश्यामीत्येवमाचार्यम् प्रत्युवाच युधिष्ठिर समुहूर्तादिव पुनर्द्रोणस्तम् प्रत्यभाषत द्रोणोवाच अथ वृक्षामिमम् माम् वा भ्रातॄन् वापि प्रपश्यसि तमुवाच स कौन्ते यः पश्याम् येनम् वनस्पतिम् भवन्तम् च तथा भ्रातॄन् भासञ्चेति पुनः पुनः तमुवाचापसर्पेति द्रोणो प्रीतमना इव नैतच्छक्यम् त्वया वेद्धुम् लक्ष्यमित्येव कृत्सयन् ततो दुर्योधनादींस्तान् धार्त राष्ट्रान् महायशाः तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत अन्यांश्च शिष्यान् भीमादीन् राज्ञश्चैवान्यदेशजान् तथा च सर्वे तत्सर्वम् पश्याम इति कुत्सिताः इति श्रीमहाभारते आदि पर्वणि सम्भव पर्वणि